लेख घनम घनम् आदित्यानुग्रहप्राप्तिमन्त्रम् केन् बि चाण्डर्ड् एनि टैम् any एनिडे वाक्यम् लेकुेखस्तेन आदिया आजुषा वियंदु के दसुके दसु के दस्ते आदि आजंजुषा दो विवस्वागुम आदिर्देव ज्योतिस्तेन आदिया आजुषाण वियो घनं ले कस्सले कस्सले को ले को ले कस्सले को ले को ले कसले कस्तुलेकः सले कसुले कसुले कस्सले कस्सले सुलेखसलेखसलेखसुलेखस्ते सलेक इति सलेखः सुलेखस्ते सुलेक सुलेखसुलेखस्ते नो नस्ते सुलेखसुलेखस्ते नः सुलेख इति सुलेखः तेनो नस्ते तेन आदित्या आदित्या नस्ते ते न न आदित्या आदित्या नो न आदित्या आद्य माज्यमादित्या नो न आदित्या आद्यम् आदित्या आज्य माज्य मादितया आदि आज्यंजुषाण जुषाण आज्यदित आदित्या आज्यंजुषाण आज्यञ्जुषाणा जुषाणा आज्यमाज्यञ्जुषाणा वियन्तु वियन्तु जुषाणा आज्यमाज्यञ्जुषाणा वियन्तु जुषाणा वियन्तु वियन्तु जुषाणा के जुषाणा वियन्तु केध केदो वियन्तु के धके दो वि यन्दु वि यन्दुके धके दो वि यन्दु के दर्शकेतः के सकेत सुके तः सुकेतस् सुकेतस्ते नो नस्ते सुकेतस् सुकेतस्ते नः तेन आदित्या अदित्या नस्ते तेन आदित्याः न आदित्या अदित्या नोन आदित्या अज्यमाज्यमादित्या नोन अदित्या आद्यम् आदित्या अज्यमाज्यमादित्या आदित्या अज्यञ्जुषाणा जुषाणा अज्यमादित्या आदित्या आज्यञ्जुषाणाः आ जञ्जुषाणा जुषाणा आजमा जञ्जुषाणा वियन्धु वियन्धु झुषाणा आजमा ज्यञ्जुषाणा वियन्द् जुषाणा वियन्धु वियन्धु जुषाणा जुषाणा वियन्द् विवस्वान् विभस्वान वियन्द् जुषाणा जुषाणा वियन्द् विवस्वान वियन्तु विवस्वान् विवस्वान् वियन्तु वियन्तु विवस्वागम् अदिरदिर् विवस्वान् वियन्तु वियन्तु विवस्वागम् दिः विवस्वागुम् अदिरादिर् विभस्वान विभस्वागुम् अदिदेर् देवज्योदिर् देव ज्योतिरदिर् विभस्वान विभस्वागुम् अदिदेर् देवज्योतिः अदिदेर् देवज्योदिर् देवज्योतिरदिरादिर् ेवज्योदिस्ते दे देवज्योदिर दिदिरदिर्देव ज्योदिस्ते देवज्योदिस्ते दे देवज्योदिर्देवज्योदिस्तेनो नस्ते देवज्योदिर्देव ज्योतिस्ते नः देवज्योदिरि देव ज्योतिः तेनो नस्ते तेन आदित्या आदित्या नस्ते तेन आदित्याः न आदित्या आदित्या नो न आदित्या आज्य माज्यमादित्या नो न आदित्या आज्यम् आदित्या आज्य माज्यमादित्या आदित्या आज्यञ्जुषाणा आज्यमादित्या आदित्या आज्यञ्जुषाणाः आज्यञ्जुषाणा जुषाणा आज्यमाज्यञ्जुषाणा वियन्तु वियन्धो जुषाणा आज्यमाज्यञ्जुषाणा वियन्दो जुषाणा वियन्तु वियन्तु जुषाणा जुषाणा वियन्तु वियन्तु ओम्